युधिष्ठिर उवाच नाथोपभोगलित् सार्थमियमथेत्सुता मम हरणार्थन्तु विप्राणाम् ब्रह्मन् न लोभतः कथम् यस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे हरणम् पालनञ्चापि न कुर्यादनुयायिनाम् संविभागो हि भूतानाम् सर्वेषामेव दृश्यते तथैवापचमानेभ्यः प्रदेयम् गृहमेधिना तृणादि भूमि रुदकौ वाक्चतुर्थी च सूधृता सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचनम् देयमातस्य चयनम् स्थित श्रान्तस्य चासनम् तृषितस्य शुधितस्य च भोजनम् चक्षुर्द्यान्मनो दद्यात् वाचम् सुभाषिताम् उत्थाय चासनम् दद्यादेष धर्मः सनातनः प्रत्युत्थायाभिगमनम् कुर्यान्यायेन अग्निहोत्रमन ड्वांश्च ज्ञातयोतिथि बान्धवाः पुत्रादाराश्च भृत्याश्च निर्दहेयुरपूजिताः आत्मार्थम् पाचयेन्नान्नन्न वृथाघातये पशून् न च तत् विघसाशी भवेत्तस्मान् नित्यम् चामृतभोजनः विघसो भुक्तशेषम् तु तथा मृतम्